न तथा सुखयन्त्यग्निर्न प्रवारा न कम्बलाः शीतवातार्दितल्लोक्यथा तव मरीचयः त्रयोदश द्वीपवतीङ्गोभिर्भासयसे महीम् त्रयाणामपि लोकानाम् हितायैकः प्रवर्तसे तव यद्युदयो न स्यादन्धम् भवेत् न च धर्मार्थ आधानपशुबन्धेष्टि मन्त्रयज्ञतपः क्रियाः त्वत्प्रसादादवाप्यन्ते ब्रह्म क्षत्र विषाङ्गणैः यद हर्ब्रह्मणः प्रोक्तम् सहस्र युग सम्मितम् तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः मनूनाम् मनुपुत्राणाम् जगतो मानवस्य च मन्मन्तराणाम् सर्वेषामीश्वराणाम् त्वमीश्वरः संहार प्राप्ते सम्प्राप्ते तव क्रोध लोक्यं संवर्तकाग्निस्त्रैलोक्यम् भस्मीकृत्यावतिष्ठते त्वद्दीधितिः समुत्पन्ना नानावर्णा महाघनाः सैरावताः साशन यः कुर्वन्त्याभूत सम्प्लवम् कृत्वा द्वादशधात्मानम् द्वादशादित्यताङ्गतः संहृत्यै कार्णवम् सर्वम् शोषयसि रश्मिभिः त्वामिन्द्रमाहुस्त्वम् रुद्रस्त्वम् विष्णुस्त्वम् प्रजापतिः त्वमग्निस्त्वम् मनःसूक्ष्मम् प्रभुस्त्वम् ब्रह्म शाश्वतम्